मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं फोर्टि त्रि श्रीगणेशाय नमः श्रीकृष्ण उवाच शृणु धर्ममहाभागकथां पापापनोदिनीं लक्ष्मीस्थं पुनरप्याह गणेशज्ञानलालसा श्रीमहालक्ष्मीरुवाच भगवन्भवता प्रोक्तम् महाशान्तिप्रदं परं तथापि ते सुशान्त्यर्थं तत्रोपायं वदस्व मे श्रीनारायण उवाच षडक्षरेण मन्त्रेण यदिदम् साधयिष्यसि तदा ते प्रत्यक्षं स प्रभविष्यति तस्य दर्शनमात्रेण शान्तिं प्राप्स्यसि निश्चितं तमाराधय यत्नेन तपसा योगभाविता एवमुक्त्वा महाविष्णुर्गणेशस्य ददौ मनुं षडक्षरं महालक्ष्म्यै विधियुक्तं विधानदः ततः सातं प्रणम्यैव तपस्ये वनमाययौ िमाचलशिरः संस्था तदाप तप उत्तमम् षडक्षरविधानेन ध्यात्वा देवं गजाननं जजाप मन्द्रराजं तं नासाग्रनयना सती चित्तस्य चेन्द्रियाणां संस्थाप्य वृत्तिं गजाननि निराहारयुधा देवी बभूव तपसि सदवर्षे गदेपूर्णे गे पूर्णे सा चर्मशेषिता हय गणाधीशो भक्या बद्धरापदे तमत महादेवी प्रणनाम चतुर्भुज महोदरम त्रिनें चरस्वादीधर प्रभु मूषकध्वजिनं पूर्णं मूषकोपरि संस्थितं सिद्धिबुद्धिसमायुक्तं नानाभूषणभूषितं गले चिन्ता मणिमणिं बिभ्रदं ज्योतिषां पदिं शेषनाभिं गजास्यं वै पीतवस्त्रैश्च शोभितं ततस्तं पूजयामास प्रभुं प्रणम्योद्धाय तुष्टावकृत्वा करपुडं सती श्रीमहालक्ष्मीरुवाच नमो महोदरायैव नानालीलाधराय सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः चतुर्बासुधरायैव चतुर्नां चालकाय मूषकारूढरूपाय मूषकध्वजिने मुशका नमः अन्नताननदेहाय ह्यनन्दविभवाय ते अनन्तहस्तपादाय सदानन्दाय ते नमः चराचरमयायैव चराचरविवर्जितयोगशान्तिप्रदात्रे ते सदा योगस्वरूपिणे अनादये गणेशायादिमध्यान्दस्वरूपिणे आदिमध्यान्दहीनाय विघ्नेशाय नमो नमः सर्वादिपूज्यपायैव सर्वपूज्याय ते नमः सर्वेषां कारणायैव ज्येष्ठराजायते नमः विनायकाय सर्वेषां नायकाय विशेषतः धुण्डिराजाय हेरम्बभक्तेशाय नमो नमः सृष्टिकर्त्रे सृष्टिहर्ते पालकाय नमो नमः त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः कर्मणाम् फलदात्रे च कर्मणाम् कर्मा ते कर्मादिहीनाय लम्बोदर नमोऽस्तु योगेशायज योगिभ्यो योगदाय गजानन सदा शान्तिखनायैव ब्रह्मभूताय ते नमः किं स्तौमि गणनाथं त्वां सदा ब्रह्मपदिं प्रभो अत त्वां तेन तुष्टो भवप्रभो धन्यासं कृतकृत्यासं सबलो मे भवो भवद धन्यो मे जनको नाधो यया दृष्टो गजाननः एवं स्तुदवदी सातं भक्तियुक्ते न च दसा साश्रुयुक्ता नन हृतैव बाष्पकण्ठा युधिष्ठिर कामुवाचगणाधीशो वरं वृणु यथेप्सितम् दास्यामि दे महालक्ष्मी भक्त्रिभावेन तोषितः त्वया तो कृतं च मे स्तोत्रं भक्रिमुक्तिप्रदं भवेद पठदां शृण्वतां देवि नानाकार्यकरं तथा पुत्रपौत्रादिकं सर्वं लभदे स्तोत्रपाठतः धनधान्यादिशम्भुदं सुखं विन्ददि मानवक गणेशवचनं श्रुत्वा महालक्ष्मीर्जगाद तं हर्षेण महदा युक्ता प्रणम्यकरसम्पुटा श्रीमहालक्ष्मीरुवाच यदि प्रसन्नभावेन वरदोऽसि महोदर तदा दे भक्तिमुग्राम्ये देहिनाथ नमोऽस्तु ते अस्माकं कुलदेवस्त्वं तत्र त्वां गणनायक भजामि भावयुक्ताकं तथापि शृणु मे वचः मनश्चञ्चलभावेन संसारे गच्छति प्रभो संसारपुत्रमोहाख्यस्तदर्थं भ्रमदे सदा अतस्त्वं पुत्रभावेन भवा मे विघ्नवारण पुत्रवात्सल्येन भजामि निरन्तरम् देवभावेनते ते मूर्तिं गजवक्त्रादिचिह्नितां भजामि च तथा संसारे पुत्ररूपिणं योगरूपस्वयं साक्षाद्यदि पुत्रो भविष्यसि तेन योगस्वरूपसा स शान्तिप्राप्ता न संशयः तव मातापिता चैव बन्धयुक्तौ यदि प्रभो तदा वेदादिकं सर्वं मिथ्यारूपं भविष्यति अदो मे पुत्रा ही तया संगणना य भज्रह भूदान सदेहो भक्ति संयुता मह्यमेशनाथ दाधव्यकुणा निध्ये न्यम व्याजे महाभागदेव नम इति लक्ष्म्या वच श्रुत्वा हर्षयन् स महोदरः उवाच भावपूर इति स्मृतः गणेश उवाच तव पुत्रो भविष्यामि ज्ञानायैर्नाशनाय च दैत्यस्य ते प्रसेवं भक्तिग्रहणलालसः यद्यदिच्छसि तत्तत्त्वं लभसे देवि निश्चितम् मदीयवरदानेन योगिवन्द्या भविष्यसि आदौ त्वया महादेवी मदीयं भजनं कृतं तेन शान्तियुता जादा योगस्था मोहवर्जिता ततस्त्वां तपसा विप्रो भृगुः पुत्रीं चकारः सा त्वं नष्टा द्विजस्यैव शापदो मोहसंयुता समुद्रेण ततो देवि तथैव आराधिता पुरा तस्य पुत्रीत्वमापन्ना त्वं विष्णो दयिता सदा तेन देवि स्मृतिर्जाता मदीया नात्र संशयः विष्णुना बोधिता मां प्राप्ता योगस्य सेवया अधुना स्मर सर्वं तस्मारिदं ते विष्णुनाप्याधिकालेऽं पुत्रार्थे याजितो भवं त्वं तथा पुत्रभावार्थं याजसे मां समुद्रजे करोमि देहिदं देवि विष्णोश्चैव न संशयः एवमुक्त्वा गणेशस्थां ययौ स्वानन्दके पुरे अन्तर्धाय भवद स्मृत्वा योगबलेनैव पुरादन भवाम् कथाम् विस्मितां मानसे जादा सस्मादद्विरदाननम् मूर्तिम् तत्र प्रतिष्ठाप्यब्राह्मणैर्वेदमारकैः पूजयित्वा ययौ स्थानं लक्ष्मीर्भक्तिसमन्विता प्रणम्यदम् महाविष्णुम् जगादः सर्वमञ्जसा वृत्तान्तम् सोपितम् श्रुत्वा हर्षितस्तमुवाचः धन्यासि धन्यसीधे पुत्री साक्षा दृष्टस्वया पुत्रभावेन तेगेह भावन देघेह आगमिष्य विघ्नपं पुराणो श्रीमदाध्ये पुराणोपनिश्रीमगे महापुराणे तृतीय खंडे महोदरचरी महालक्ष्मी वर प्रधानमंत्री चरिश्योध्याय ओं